नारदपुराणम् उत्तरार्धम् अध्यायम् सिक्स्टि टु वसिष्ठ उवाच एतच्छ्रुत्वादु भूपाल मोहिनी विधिनन्दिनी पुरुषोत्तममाहात्म्यम् भुक्तिमुक्तिप्रदायकम् पुनः प्रप्रतम् विप्रम् वस्तुं स्वस्य पुरोहितम् मोहिन्युवाच श्रुतमत्यद्भुतम् विप्र पुरुषोत्तमसम्भवम् माहात्म्यम् चाधुना ब्रूहि प्रयागस्यापि सुह्रद तीर्थराजप्रयागाख्यश्रुतपूर्वम् मया गुरो तन्माहात्म्यम् ममाख्याहि हि तीर्थयात्रा विधानयुग समान्यानाम् विशेषाणाम् तीर्थानाम् गमने द्विज यत्कर्तव्यम् च विधिना नृभिर्धर्मपरायणैः तच्छ्रुत्वा सद्विजो राजन्मोहिन्या भाषितम् वचः सामान्यविधिपूर्वम् तत्प्रयागाख्यानमब्रवीद वसुरुवाच शृणु भद्रे प्रवक्ष्यामि तीर्थाभिगमने विधिम् यं समाश्रित्यमनुजो यथोक्तम् फलमाप्नुयाद तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते अनु पोष्यत्रिरात्राणि तीर्थान्याप्यभिगम्य च अदत्त्वा गाश्च दारिद्रो जायते नरः अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः न तद्भलमवाप्नोतिगमनेन यत् अज्ञानेनापि यस्येत तीर्थामिगमनम् तीर्था भवेत् सर्वकामसमृद्धः स स्वर्गलोके महीयते स्थानं च लभदे नित्यम् धनधान्यसमाकुलम् ऐश्वर्यज्ञानसम्पूर्णः सदा भवति भोगवान् तारितापितरत्रेण नरकाप्रपितामहा यस्य हस्तौ च च मनश्चैव सुसंह्यतम् विद्यातपश्च कीर्तिश्च सतीर्थफलमश्नुते प्रदिग्रहादपावृत्तः सन्तुष्टो येन केनचिद अहङ्कारविमुक्तश्च सतीर्थफलमाप्नुयात् अकल्पको निरारम्भो लघ्वाहारो जितेन्द्रियः विनुक्तसर्वसङ्गैस्तु सतीर्थफलभाग्भवेत् तीर्थान्यनुसरन्ध्रीरश्रद्धधानः समाहितः कृतपापो विशुद्ध्येतु किं पुनः शुद्धपर्मकृत अश्रद्धधानपार्थो नास्ति कोच्छिन्नसंशयः हेतुनिष्ठश्च पञ्चैते न तीर्थफलभागिनः नृणां पापकृतां तीर्थे पापस्य शमनं भवेत् यथोक्तफलदं तीर्थं भवेच्छुद्धात्मनां नृणां कामं क्रोधं च लोभं च योजित्वा तीर्थमाविशेत् न तेन किञ्चिदप्राप्तम् तीर्थाभिगमनाद्भवेत् तीर्थानि च यथा कृतेन विधिना सञ्चरन्ति ये सर्वद्वन्द्वसहा धीरास्ते नरा स्वर्गगामिनः गङ्गादितीर्थेषु वसन्तिमत्स्या देवालये पक्षिगणाश्च सन्ति भावोच्छितास्तेन फलं लभं ते तीर्थाच्च देवायदनाच्च मुख्यात् भावं ततो हृत्कमले निधाय तीर्थानि सेवेद समाहितात्मा या तीर्थयात्रा कथिता मुनीन्द्रैः कृता प्रयुक्ता ह्यनुमोदिता च तां ब्रह्मचारी विधिवत्करोदि सुसंयदो गुरुणासं नियुक्तः सर्वस्वनाश्येऽप्यथवल्पपक्षे सब्राह्मणानग्रद विप्रस्तुतीर्थानि परिभ्रमे तीर्थेष्वलं यज्ञफलं हि यस्मात् प्रोक्तं मुनीन्द्रैरमलस्वभावैः यस्येष्टि यज्ञेष्वधिकारितास्ति वरं गृहं गृहधर्माश्च सर्वे एवं गृहस्थाश्रमसंस्थितस्य तीर्थे गदिपूर्वतरैर्निषिद्धा सर्वाणि तीर्थान्यपि चाग्निहोत्र तुल्यानि नैवेदि वदन्ति केचिद् यो ह्यः कच्चित्तीर्थयात्रां तु गच्छेत् शुसं यतः स च पूर्वं गृहेषु कृदा वासुचिरप्रमत्तः सम्पूजयेद्भक्तिनम्रो गणेशं देवान् पितृन्ब्राह्मणांश्चैव साधून् विप्रो वित्तशक्त्या प्रयत्नाद प्रत्यागतश्चापि देवान् पितृन्ब्राह्मणान् पूजये च एवं कुर्वतस्तस्य तीर्थाद्यदुक्तं फलं तस्यान्नात्र सन्देहलेशः गच्छन् देशान्तरं यस्तु श्राद्धं कुर्यात् सर्पिषा यत्रार्थमिति तत्प्रोक्तम् प्रवेशे च संशयः प्रयागे तीर्थयात्रायाम् पितृमादृवियो गदः कचानाम् वपनम् कुर्याद्वृथान विकचो भवेद उद्यतश्चेद्गयाम् गन्तुम् श्राद्धम् कृत्वा विधानदः विधाय कार्पणी कृत्वा ग्रामप्रदक्षिणाम् तदो ग्रामान्तरम् गत्वा श्राद्धशेषस्य भोजनम् ततः प्रतिदिनम् गच्छै प्रतिग्रहविवर्जितः पदे पदेश्वमेधस्य गच्छदो गयाम् बलीवर्दसमारूढस्तीर्थम् यो यादिसुव्रते नरकेव सदेको रेगवं क्रोधो हि दारुणः सलिलं च न गृह्णन्ति पितरस्तस्य देहिनः ऐश्वर्यालोभमोहाद्वा ध्यानेन यो नरः निष्पलं तस्य तत्तीर्थं ध्यान विवर्जयेत् गो याने गो वध प्रोक्ता हयाने तु निष्फलं नरयाने याने तदर्थं स्यात् पद्भ्यां तच्च चतुर्गुणं वर्षादपादिके छत्रीदण्डीशर्करकण्टके शरीरत्राणकामोऽसौ सोपानकः सदा व्रजेत् तीर्थं प्यानुषङ्गेण स्नानम् तीर्थे समाचरन् श्रनजम् फलमाप्नोति तीर्थयात्राफलं न तु षोडशांशं सलभदे यः परार्थेन गच्छति अर्थम् तीर्थफलम् तस्य यः प्रसङ्गेन गच्छति तीर्थे शुब्राह्मणम् नैव परीक्षेदकदाचन अत्रार्थिनमनुप्राप्तं भोज्यं तं मनुरब्रवीदन् सक्तुभिपिण्डदानं च संया वैः पायसेन वा श्राद्धं तु तत्र कर्तव्यमर्चावाहनवर्जितं स्वध्वां क्ष गृध्र पापापानाम् नैव दृष्टिसदम् च यत् श्राद्धम् तु तैर्तिकम् प्रोक्तम् पितॄणाम् तृप्तिकारकम् अकालेऽप्यथवा काले तीर्थश्राद्धम् तद्धा नरैः प्राप्तैरेव सदा तत्र कर्तव्यम् पितृतर्पणम् विलम्बो नैव कर्तव्यो नैव विघ्नम् समाचरेत् कुशोऽस्ति कुशपुत्रोऽसि ब्रह्मणा निर्मितः पुरा त्वयि स्नाने तु सस्नादो यस्यदं यस्येदम् ग्रन्थिबन्धनं मुण्ठनम् चोपवासश्च सर्वतीर्थेष्वयं विधिः वर्जयित्वा कुरुक्षेत्रं विशालाम् विरजां गयां भौमानामथतीर्थानां पुण्यत्वे कारणं शृणो यथा शरीरस्योद्देशाः केचिन्मुख्यतमास्मृताः प्रभावाद्द भूमे सलिलस्य च तेजसः परिग्रहान्मुनीनां च तीर्थानां पुण्यदा गङ्गां सम्प्राप्य यो देवि मुण्डनं नैव कारयेद् क्रिया तस्याः क्रिया सर्वात् तीर्थद्रोही भवेत् तदा गङ्गायां भस्करक्षेत्रे मुण्डनं यो न कारयेद् सकोडि कुलसंयुक्त आकल्पं रौरवं प्रजेद, गङ्गां प्राप्य सरिश्रेष्ठां कल्पान्तपापसञ्चयाः केशानाश्रित्य तिष्ठन्ति तस्मात् परिवर्जयेत परिवर्जयेत् यावन्दिन्न कलोमानि गङ्गातो ये पदन्ति वै तावद्वर्षसहस्राणि स्वर्गलोके महीयते प्रयागव्यधिरेकेदुगङ्गायां मुण्डनं नहि योऽन्यधा कुरुदे मोहा स महारौरवं विषेद सज्जीवत्पितृकोयस्तु तीर्थम् प्राप्य विधानविद क्षौरं समाचरेन्नैव श्मश्रूणां वपनं सति गयादावपि देवेशिश्मश्रूणां वपनं विना नक्षरं मुनिभिः सर्वैर्निषिद्धं चेदिकीर्तितं स श्मश्रु केशवपनं मुण्डनं तद्विदुर्बुधाः नक्षौरमुण्डनं सुभ्रुकीर्तितं वेदवेदिभिः इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे प्रयागराजमाहाग्म्ये तीर्थविधिर्नाम द्विषष्टितमोऽध्यायः ओम्